शिष्टे दुष्टजनैश्च दृष्टमहिमः प्रीत्या च भीत्या ततः सम्पश्यन् पुरसम्पदम् प्रविचर सायम् गतो वाटिकाम् श्रीदाम्ना सह राधिका विरहजौ खेदौ वदन्त स्वपा आनन्दन् अवतारकाय घटनात्पातेश संरक्षमा